श्रीमद्भागवतमहापुराणं दशस्कन्ध तासामतिविहारेण शान्तानां वचनानि स प्रामिजत्करुणः प्रेम्णा सन्त मेनाङ्गपाणिनां गोप्या स्फुरत्पुरन् पुरटकुण्डलकुन्तलद्वेन गण्डश्रिया सुजहासनिरीक्षणेन सभस्य कृताने मानं दधत्य ऋषभस्य जगोकृतानि पुण्यानि तत्करुहरस्पर्शप्रमोदा ताभिर्युतश्रममहो मपोहितमुङ्गसङ्गस्रजसकुचकुङ्कुमरञ्जिताया गन्धर्वपालिभिरनुद्रुतम् आविशद्वा श्रान्तो गजेभिरिभाभराडिव भिन्नसेतु सोम्भस्थलं युवतिभिः परिषिच्यमान प्रेम्लेचितप्रहसतिभिरितस्ततोङ्ग वैमानिकैकुसुमवर्षिभिरिड्यमानो रे मे स्वयं स्वरतिरद्रगजेन्द्रलील ततश्च कृष्णोपवने जलस्थल प्रसूनगन्धानिलजुष्टदिग्धैर्दिते चचारभृङ्गप्रमदा गणाभृतो यथा मदत्युन्विरदकरेणुभि ससांकां सुविराजिता स सत्यकावो नृतपाता बलागणः <laughs> शिशैव आत्मन्यवरुद्धसौरथ सर्वासहृत्काव्यकथा रसाश्रया राजुवाच संसापनाय धर्मस्य प्रसमायेतरस्य च अवतीर्णो हि सेन जगदीश्वरः स कथं धर्मसेतूनां वक्ता कर्ताभिरक्षिता प्रतीपमाचरद्ब्रह्मन् परदाराभिमर्शनम् आप्तकामो यदुपतिः कृतमान् वै जुगुप्सितं किमभिप्रायये तं न संशयं श्रीशोवाच धर्मव्रतिक्रमो दिष्टश्वराणां च साहसम् तेजीयसां न दोषाय वह्ने सर्वभुजो यथा नैतस्समाचरे जातो मनसापि ह्यनीश्वरः विनश्यत्याचरन्मढ्याद्यथा रुद्रोऽभिजं विषम् ईश्वराणां वच सत्यं तथैवाचरितं क्वचित् तेषां यस्ववचो युक्तं बुद्धिमास्तः समाचरेत् कुशलाचरितेनैषाम् इह विद्यते विपर्ययेण मानर्थो निरहङ्कारिणां प्रभो किमुता कुलसत्त्वानां तर्ङ्मर्त्य दिवौकसाम् इशतुश्चेसितव्यानां पराग निशेव चिप्ता यत्पादपङ्कजपरागनिषेवता योगप्रभावविदुताखिलकर्मबन्धा चैरं चरन्ति मुनयोऽपि नह्यमाना तै तस्येच्छयाद्वपुषकृतये बन्ध गोपीनां तत्पतीनां च सर्वेषामेव देहिनां योऽन्तरश्चरतिसोऽध्यक्ष क्रीडे देहदेहभाक् अनुग्रहाय भूतानां मानुसन्देहमासीतः भजते तादृशी क्रीडा या श्रुत्वा तत्परो भवेत् नासूयन् खलु कृष्णाय मोहितास्तस्य माययां मन्यमानास्व पार्श्वस्थानश्वानश्वानद्धारान् ब्रजौकश ब्रह्मरात्र उपावृत्ते वासुदेवानुमोदिताः न रीक्षन्तो ययुर्गोप्य स्वगृहान् भगवत्प्रियाः विक्रीडन्तं भजं वधूभिरदं च विष्णोः श्रद्धान्वितो नु शृणुयादथ वर्णयेद्य भक्तिं परां भगवति प्रतिलभ्य कामम् हृद्रोगमाश्वपहिनोद्यचिरेण धीरः श्रीमद्भागवते महाप्राणैः पारभंसां